ष्टके षष्ठप्रश्नप्रारम्भः ओ... अनुमत्ते प्रौढाजमष्टागवान् नग्वपदि ये भृत्यञ्जश्यन्याय अधीयन्ते तन्नैरृतमेव कपालम् इयम् वा नमतिः निरृतिः नैरृतेन पूर्वेण प्रचलति आत्मानमेव निरृतिम् पूर्वा निरवदयते एककपालो भवति एकथैव निरृतिम् निरवदयते यदु स्वाकारभवत्य ईयोः रुद्रो भूत्वाग्निर्णोत्थाय अध्वर्यम् धैलमानम् जहन्याहाणत्याह आहृत्यैवेमयति नार्यन्मयमानः देवायन्ति एषा वै निरृत्यै दिव सायामेव दिशि निरवृतम् निरवदे स्वकृतरणे जाकृतरेवाः एतद्वै निरृत्या आयुधम् स एवायुधमे निर्वृतम् निरवदे एष ते निरलते भागयित्याह निर्दिशत्येवत्याः भोगिमेवोपावर्तते अङ्गुष्ठाभ्यान्तरवदे कृष्णम् वासः कृष्णतो संदक्षिणा एतद्वै निरृत्यै रूपम् रूपेणैव निरृतिम् निरवदेत् अप्रतीक्षमायन्ति निरवृत्या अङ्गरि य इदम् चकारे वा स्मैरात्यमामेव जयम् कुरुते आदित्येव प्रजास्वभिरुच्यते देवेषु चमानुषेषिणा परोहिराज्यगमसमर्थे आज्ञा वैष्णवमेकादशकपालम् निर्वपदे अग्नः सर्वा देवताः विष्णुर्यज्ञः देवतास्त्री वैज्ञम् चामृन्दे आमनो वही दक्षिणा यद्वही येनाग्वामनः तेन वैष्णवस्समर्थे अर्गे स्वामीयमेकादशकपालम् निर्ववति अर्गेष्माभ्याम् वा इन्द्रवृत्तमहण्येष्वाम्यमेकादशकपालम् निर्ववती ेव विजत्ये हरेन्द्रियम् दक्षिणा समृद्धिन्द्रवृत्रियेन्द्रियम् चवारुन्ध्रामेकादशकवारम् यद्भवति देवलाश्चैवन्धे दक्षिणा यद् ृषभः केन इन्द्रस्य मध्ये आज्ञेयमष्टाकपालम् अ इन्द्रज्ञपुरम् यज्ञपुरमेन्द्रन्दी इन्द्रियमेवावृन्दे वै दक्षिणा तेनैन्द्रः समर्जे प्रजा ओषधे नाम हुता नामास्मिन् आक्रेण ओषधे श्वाजिमयो वा इन्द्राग्ने मदयताम् का भेदवेन्द्राग्नम् द्वादशकपालम् द्वादशकपालो भवति संवत्सरः संवत्सरेणैवास्मा अन्नमवृन्देश्वदेवश्च अन्नम् अन्नमेवास्मि ईश्वरे सौम्यगस्यागम् चरन् निर्ववति सोमो वा अकृष्टवत्स्य राजा अकृष्टवत्स्यमेवास्मि एक्षिणा सौम्यो हि देवतया वासः समर्थ्ये सरस्वती जलम् निर्वपदे सरस्वते धनुवावरुन्धे दक्षिणा समृद्धि एदिवा एष यज्ञमुखादृद्धा एति अष्टावेदानि हवींषि भवन्ति अष्टाक्षरा गायत्री गायत्रोऽग्निः तेनैव यज्ञमुखादृद्ध्या अग्नेदेवता येन ऐश्वदेवेन मयि प्रजापतिः प्रयाः सृजना ग्निमप्यसृजत समोरे सविदाप्राजयेत सरस्वदेवा च मदधाल घोषाघोषयत एते संवत्सरस्य प्रयुज्यन्ते एः संवत्सरेणैवास्मि प्रजा अस्मानपि न प्रायुच्छते सप्तकपालमपश्य तन्निरवद तदा वै प्रजाभ्यकल्पना किम्मारतो निरुप्यते कृत्यैः प्रजानामधाय सप्तकबालो भवति सप्तक नामै मृतः एवास्मै विकल्पयति स प्रजापतिरसोचत यापूर्वाः प्रजासृक्षि अमृतस्तामपराश्लेयति अस्य सुष्माण्णम् भोजन्यरवर्तत तद्विलहरत् तदपोषयत् तत्प्राजायिताण्डस्य वा एतद्रूपम् प्रजा एव रन्त्रियमानः पोषयति नैश्वदेव्यामिक्षा भवति नैश्वदेव्या वै प्रजाः प्रजा एवास्मै प्रजायति वाजिनमानयति प्रजा स्वेव प्रजाता दधाति या भवति प्रजा एव प्रजाताीभ्याम्भेदम् परिगृह्णातिरम् प्रवेद आ सरस्वती इन्द्रियम् गोहङ्गास्यामिति नाम् पञ्चमयिकोषा मया प्रतिष्ठया ज्येति राज्ञाः भवति माता पिता पुत्रः तदेव तन्विधनम्भो जरायो तदेव तन्विधनम् त्रेधा बलिः सन्नद्धम् भवति लोकाः लोके प्रतिष्ठति एकधाम् भवति एकैवोकः अस्मिन्नेव प्रतिष्ठति भवन्ति प्रथमयामेव पुष्टमवरुन्धे प्रथमयो वत्सो दक्षिणादवर्धे क्षदाद्यम् गृह्णादिवावृन्धे पञ्चगृहीतम् भवति भवति भवलोकान्ति अग्निमुखा वै प्रजापदप्रजा अग्निमुखा एव अष्टो हवे द्वाघाटोगोक्षाविराड् अन्नम् विराड् विराजैवान्नात्ये यजमानो वा एककपालः तेज आज्यम्ककपालः आज्यमानयति यजमानमेव तेजसा समर्थयति यजमानो वा एककपालः कपालः यशवः समर्थयति यदल्पमानयेत् अल्प एनम् पशवो भ्वन्ध उपदिष्टेरन् यदल्नम् पशवो भञ्जन्ध उपदिष्टेरन् ृष्टम् उपतिष्ठन्ते यजमानो वा एककपालः सकृः सकृति यजमानमेवर्गम् लोकम् गमयित्वा एतसा समर्थयति यजमानो वा एककपालः स्वर्गो लोक आह वनीयः निदेकपालमाहवनीये जुहति यजमानमेव स्वर्गम् लोकम् न वयति यद्धस्ते न जुहुयात् स्वर्गाल्लोकात् यजमानमवविध्येत् सृजाति स्वर्गस्य लोकस्य समृष्टि यत्प्राङ्म्येत एकमभिजयेत् यद्दक्षिणामितिष्ठितोः द्रव्यः एकवारम् वै प्रतिष्ठन्त्या वा पृथिवी अनप्रतिष्ठितः या वा पृथिवी रवः ऋतोः यज्ञमानः यजमानम् मृगाः तस्मात्प्रतिष्ठिताः द्रव्यः साधानम् अन्तराधानाभ्याम् प्रयच्छत् ञति निराधानाभ्यामेवञ्जनवादिनमानयति प्रजा वैः एवादिनम् प्रजा स्वेव रेतो दधाति समुभूय भक्षयन्ति एतत्सवै धाव्येते अथो आत्मन्नेव रेतो दधते यजमानोत्तमो भक्षयति पशवो वै वादिनम् यजमान एव पशवम् प्रतिष्ठापयन्ति प्रजापतिः सविता भोत्वा प्रजा असृजता त्यमन्यता आस्मादपाक्रामन् आवरुभूत्वा प्रजावरुणेनाग्राहय प्रजावरुणगृहीताः प्रजापतिम् आन्यरवद तैर्वेदप्रजावणमासादमञ्चप्रासानुप्यन्ते प्रजानामवर्णग्राहायम् ष्टम् लोकौ भयाबाहुः यज्ञाभिसम्भिन्ने भवतः तस्मात् प्रथमात्र उत्तरस्याम् वेद्यामुत्तरवेदि वदे वशवो वा उत्तरवेदि अशो नेवा वरुन्दे अथो यज्ञपरिशोधम् तर्चि एषेन्द्राग्णापानो वा एतो देवानाम् यदैराग्नि यदेन्द्राग्नो भवति प्राणापानावेवावृन्दे ओजोवनम् एतो एतौ देवानाम् एव प्रजावन्मुञ्चति हासमेवान्नाद्योपानमत् समार्जमवारुन्ध यत्परस्सदानि समे भर्णानि भवन्ति अन्नाद्यस्यावृद्धि सौम्यानि वै कलीराणि सौम्याकल् वृष्टिम् चावैति त्यक्लीराणि भवन्ति सौम्यैवाहुत्यादिवावृष्टिमवृन्देकपालो भवति प्रजानाम् गन्धायुषन्तरम्भपात्राणि भवन्ति जाता एव प्रजावरणभाषान् वञ्चति एकमतिरिक्तम् निष्यमाना एव प्रजापरणपाशान्मुञ्चति उत्तरस्याम् दक्षिणायाम् मारुतिम् अपधुरमेवैनायलक्ति अथ एवासामहरति तस्माद्ब्रह्मणस्य क्षत्रात्क्रमिणीः मारुत्या पूर्वया प्रचरति अनृतमेवावयुजरे वारुण्यात्परया अन्तत एव वरुणमवयुजरे यदेवर्येयामुपनयति यद्धा सन्तः प्रब्रूयात् सोमे दारे निर्दिशेत् यद्यस्यैवेन वरणपासेन ग्राहयति प्रभास्यानुमहितपत्नीवदानयति अहदेवक्यात् निर्वेर्यन्वाह आत्मन्नेव वीर्यम् धत्ते वो याज्यागोधवेर्यद्वाय यत्क्रामेत्याह यथा इदमेव वरुणमवेजते यजमानदेवत्यो वागाह मलीयः आद्रुव्यदेवत्यो दक्षिणः यदाह मलीये जयात् एव वरुणते प्रत्यङ्गिष्ठम् जहोति प्रत्यङ्गेव वर्णभाषा अत्र वर्णगृहेतम् वा एतजस्य यद्यच्यते कृषास्त्यनिष्कासस्य निष्कासेन जाप्रथमैति वर्णगृहे नैव वरुणमवेजते अभावप्रथमवैति अप्सवै वरुणः साक्षादेव वरुणमवयोजते प्रतीकवर्णस्य पाशैत्याह वर्णपाशादेव निर्मोच्यते दे। अप्रतीक्षमायन्ति वरुणस्यान्तर्हित्यह निर्नमस्यन्त उपायन्ति तेजो ते नो मयि देहेत्याह तेज एवात्मन्धत्ते देवासुराः संयत्ताः सन् सारीद ममेयमनेकपदेसुरानभि भविष्यतेनयनेकपदे पुरोडाशमष्टाकवादन्य साकवान्सेन भागधेयेन प्रेदः चतुर्थानेकान्यजनेत ततो देवाभवन् परासुरावदे पुरोष्टाकपालम् निर्भवति अग्निमेवानीकवन् तद्गस्वेन भागधेयेन प्रीणाति भाग असौवान् अस्य रश्मयोनेकानि साको शौर्येणोऽ साक्षादेवास्मानेकानि जनयति तेषु राजन्तः ृथिवेश्रयन्तेवामरुद्भ्य सान्तभेभ्यश्चिरुन्निरपवन् तान् द्यावापृथिवेभ्यामेव भयदः समदपन्न यन्मरुद्भ्यः सान्तभनेभ्यश्चिरुन्निर्भवति या वा पृथिवेभ्यामेव तदुभयतो यजमाना भ्रादृ यान् सन्तवति न्तः सर्वासान् जन निरोपन् आशिता एवाद्य कस्य वा एनम् कस्य वा स्व तस्याहृतस्य नास्मिन् मरुद्भ्याग्रहमेधिभ्य इत्यद्भ्याग्रहमेधिभ्यो तथा देवाभवन्सुराः यस्यैवम् जिनिष मरुद्भ्याग्रहमेधिभ्यो गृहे जिह्वति भवत्यात्मनातृयो भवति ैव चक्षुषेनान्ता गृहमे प्रतिष्ठित्य पशुष्वेव तिष्ठति यत्पत्नी गृहमेधीयस्यास्नीयात् गृहमेध्येव स्यात् मृत्वस्य यज्ञाध्ययन्नास्नीयात् अहमेधी स्यात् आश्रयज्ञा विध्ययशम् भजेय तस्यास्नीयात् गृहमेद्यैव भवति आश्रयज्ञा व्यर्थ्यते हे देवागृहमेधीयेनेष्ट्वा आसिताभवन् आञ्जिताभ्यञ्जत अनुवत्सानुवासयन् तेभ्योऽसुराः देवेषु लोकमवित्त्वा असुरान् पुनरगच्छत् वृथमेधीयेनेष्ट्वा आसिता भवन्ति आञ्जितेभ्यञ्जते अनुवत्सानुवासयन्ति भ्रातृव्या एव तज्जयमानः गृह्णोति इन्द्रायनिष्कासञ्जनेव अथो इन्द्रियमेव इन्द्रावर्त्रनो हत्वाराधमिति मन्यमानः वृणामयि वयम् वेदा वा अस्मभ्यमेव प्रथमनोहविन्नरप्या इति क्रीडित्वम् क्रीडिभ्य प्रथमनो हविर्दे साकौ सौर्येण जानति एतस्मिन् एतत् एतत् उद्धारम् एकमिन्द्रेवतास्वधि यदेश इन्द्रश्चरुद्भवति उद्धारमेव तञ्जमानोद्धरते अन्यासु प्रजास्वति ईश्वर एककपालो भवति ृन्देश्वरी प्रजापतिप्रजा असृजता आवरणप्रकाशैर्वैप्रत्यस्थापयतु निरवादयतृज्ञानमयद्वदेव ने प्रजा एवप्रकासैर्वषान्मुञ्चले उत्तर एव दक्षिणार्थे पुरोडा शिषुकपालन् संवत्सरो वेदर्वान् संवत्सरमेव प्रीणाति पितृभ्योपदेशभ्यो धानाः मासापितरोपरे प्रीणाति यस्मिन् वा रतोपरिष प्रमीयते सोऽस्मिन् लोके भवति अहोपाधाना भवन्ति आरात्राणामभिरुचि पितृभ्योऽष्पात्रेभ्यो मन्थम् ै पितराग्निष्वासानेव प्रीणादि अभिमान्यायी दुग्धे भवति सा हि पितृन् दुः यत्पूर्वम् अर्थः पितृणाम् अर्धोपवन्थति अर्धो हि पितॄणाम् एकयोपवन्थति एका हि पितॄणाम् अक्षणोपवंसति दक्षिणामध्यपितृणाम् न्ति उभये देवाश्च पितरस्य अखाता भवति खाता हि देवानाम् अन्ततो हि देवानामाधीयतेव्यावृत्ति परिश्रयति अन्तर्हि ता हि पितृोको मनुष्यलोकात् दिपरुषिजनम् तद्देवानाम् यदन्तरा ब्रह्मनुष्याणाम् समोलम् समोलम् बृहद्भव देव्यावृत्ति दक्षिणासृणादि दक्षिणावृद्धिमितृणाम् क्लिपर्येतिवा इतो लोके पितरः ता नैव षट् सम्पद्यन्ते षट्वार्तवः अतो नैव प्रीणादि तत्प्रस्तरङ्गिषा गृह्णेयात् प्रमायुगो नैव प्रमायुगो भवति नानायः परिदध्यात् यन्न ैन्वञ्च प्रमीयतेभ्यञ्जन्याय तथा भागमेवेनान् प्रीणादि अण्डयदेवेभ्यः पितुर्भ्यः समिध्यमानायानुब्रूहीत्या एकामन्वाः एका हि पितुनाम् त्रिन्वाः त्रिभिः देवानाम् आकारावाकारेति नित्यपुरुषादनन्तरित्यै दारुषेयम् वृणीते महोदारम् यदायिम् वृणीतरम् प्रमायिको यजमानः स्यात् प्रमायिकोहदा तस्मान्न वृणीते मृत्युर्सयति आद्यभागो यजति यज्ञस्यैव चक्षुनान्तरयति सौमुजति हि एषा हृदि पञ्चकृत्वा वाक्येः याच्या देवतावृत्कारः सा एव प्रीणादि सङ्गलमवद्यते अगौ सङ्गत्यै प्रैवेभ्यः पूर्वया पुराणुवाक्यया प्रणयदियया रमयदि याच्यया तृतीयैव इतो लोके पितरः अन्न ना एवैनान् पूर्वयात्यानयदि आत्रये तिलीया ऐ वैनानयात्ययागमयति रक्षणतो वदाय पदङ्गलिकाम दिव्यावृत्यै आस्वदेत्याश्रावयदि असुस्वधेदि प्रत्याश्रावयदि धाकारा हि पितरान् सममग्रे यजति सामप्रयाजा हि पितरः सर्वम् पितम् यजतिसरमेव दद्यजति पितरोपरिहृदो हे पितरोपरिहृदः तानेव दद्यजति पितोनग्निष्वाता यजति ये वा यानो गृहमेग्निष्वाता पुरुषान्नामनगृह्णन्ति एतावन्तो हिन्ते अर्थपितरा यथा भागम् मन्दमित्याः पितरः चामन्ति एषा मनुष्याणाम् स्वामेव तस्य शमन्ति आहवनीयमुपतिष्ठन्ते अधान्यचलन्ति तेवापत्र प्राणा वैविद्याः प्राणावै प्राणमेवान् गृहते जानेहरीत्याह प्राणमेव पुनरयुक्ता अक्षण्णमेव दन्त हि रिकार अक्षण्णमेव दन्ता सत्त्वपतिष्ठामः इति वा वेदिताः अमीव दन्तवितरसौम्या इत्यभिप्रवर्त्यन्ते अमीव दन्तवितरसत्त्वाभिप्रवद्यामः इति वा वेतराः अपरिषिञ्चदि माचयत्येवेणान् अथवा तर्पयत्येव तृप्यति प्रजया पशुभिः हे एवम् वेद अपपरिहिषावनो याजो यदि प्रजा वैबिः प्रजा एव मत्योत्सुजलि चतुरः प्रयानो याजौ षट्सम्पद्यन्ते षट्वा रतवः प्रीणादि न्यन्वास्तेजयन्ति यत्संयाजय प्रमायिका स्यात् तस्मान्नान्वास्तेयाजयन्ति अद्विधाय प्रतिपोरुषमेककपालान् निर्भवति ज्ञाता एव प्रजारुद्रान् निरवदयते एकमतिरिक्तम् यदिष्यमाना एव प्रजारुद्रान् निरवदयते एककपाला भवन्ति एकदैवयति यदभिहारयेत् इमान् दिशयन्ति एषा स्वायामेव दिशिरुद्रन् निर्वते रुद्रावाहपशुकायातिष्ठत असौ ते पशुरति निर्दिशेत्यम् यमेव द्वेष्टिमस्मे पशुर्निर्दिशति आकुस्ते पशुरति प्रूयात् न ग्राम्यान् पशोस्ति नारण्यान् चतुष्पदे जुहोति एषाग्नीनाम् पट्पीष नाम अग्निवत्येव जुहोति जुहोति शृढ्येषा अथ खलु हन्तमेनैव होतव्यम् अन्तत एव रुद्रम् निर्वदेत् एष ते रुद्रभागः सह स्वस्राम् अस्याम् विष हिनस्ति येन हिनस्ति तैवेनमो ये सह शमयति एषदङ्गवैद्याः यावन्त एव क्राम्या पशवः तेभ्यो भेषजम् ृत्यामामृतादिवावैतदाः उत्किरन्ति भूते उत्पासयन्ति यथा वसम् करोति तादृशेव तद् एषेरुद्रभागैत्याह निरवर्त्यै अप्रतीक्षमायन्ति अपः परिषिञ्जलिङ्गस्मान्लोकाच्यवन्दे ये त्रियम् वगेश्चरन्ति आदित्यञ्जलम् पुनरेचनिर्ववलि इयम् वादिः अस्यामेव प्रतिष्ठन्ति इति प्रथमाष्टके षष्ठः प्रश्नः